ॐ अस्पृश्याय नमः ॐ अपृच्छयाय नमः ॐ अव्ययाय नमः ॐ अनाद्यन्ताय नमः ॐ अप्रकृतेय नमः ॐ अविक्रियाय नमः ॐ अनामयाय नमः ॐ अप्रमेयाय नमः ॐ अप्रमाणाय नमः ॐ अजताय नमः ॐ अप्रमात्रे नमः ॐ अनामरूपाय नमः ॐ अननुज्ञाताय नमः ॐ अविकल्पाय नमः ॐ अनुज्ञैकरसाय नमः ॐ अखण्डैकरसाय नमः ॐ अहं ब्रह्मास्मिरूपाय नमः ॐ अहं ब्रह्मास्मिवर्जिताय नमः ॐ अशुभाशुभसङ्कल्पाय नमः ॐ अणुस्थूलादिवर्जिताय नमः ॐ अन्तरात्मने नमः ॐ अपरिच्छिन्नाय नमः ॐ अद्वयानन्दाय नमः ॐ अक्रियाय नमः ॐ अविद्याकायरहिताय नमः ॐ अन्तर्यामिणे नमः ॐ अखण्डाकारबोधाय नमः ॐ अखण्डाकाशबोधाय नमः नसगोचराय नमः ॐ अखिलाकाराय नमः ॐ अजराय नमः ॐ अकलङ्काय नमः ॐ अमराय नमः ॐ अकर्मण नमः ॐ अखिलनादाय नमः ॐ अखिलातीताय नमः ॐ अक्षयाय नमः ॐ अखिलाण्डस्वरूपाय नमः ॐ अखिलव्यापकाय नमः ॐ अच्छेद्याय नमः ॐ अदाह्याय नमः ॐ अक्लेद्याय नमः ॐ अशोष्याय नमः ॐ अशुराय नमः ॐ अचञ्चलाय नमः ॐ अतिदाय नमः ॐ अतीताय नमः ॐ अतिशयाय नमः ॐ अविरोधाय नमः म् अतिसूक्ष्माय नमः ॐ अधिष्ठानाय नमः ॐ अत्रे नमः ॐ अन्त्र ॐ अभिन्नाय नमः ॐ अतिसुन्दराय नमः ॐ अघनाशिनय नमः ॐ अमलाकाराय नमः ॐ अबोध्याय नमः ॐ अनालस्याय नमः ॐ अनुस्यूताय नमः <Trinathival> विच्छिन्नाय नमः ॐ अघग्नाय नमः ॐ अनघाय नमः ॐ अन्तप्राज्ञाय नमः ॐ अदृश्याय नमः ॐ अविज्ञेयाय नमः ॐ अहम् आत्मने नमः ॐ अनेशाय नमः ॐ अहङ्कारविवर्जिताय नमः ॐ असाक्षिणे नमः क्षिणे नमः ॐ असूयाहीनाय नमः ॐ अग्निसाक्षिणे नमः ॐ अव्याकृतरहिताय नमः ॐ अव्याकृतसाक्षिणे नमः ॐ अहङ्कृते साक्षिणे नमः ॐ असूयासाक्षिणे नमः ॐ अवच्छन्नसाक्षिणे नमः ॐ अवच्छन्नवर्जिताय नमः ॐ अलौकिकपरानन्दाय नमः ॐ अमलाकाशाय नमः ॐ अद्वितीयब्रह्मसंव्यदे नमः ॐ अविनाशात्मने नमः ॐ अतिवर्णाश्रमाय नमः ॐ अलक्ष्याय नमः ॐ अन्तरङ्गाय नमः ॐ अक्षताय नमः ॐ अखिलोपाधिनिर्मुक्ताय नमः ॐ अध्यात्मकाय नमः ॐ अनाख्याय नमः ओम् अनभिव्यक्ताय नमः ॐ अभिव्यक्ताय नमः ॐ असत्यानन्दहीनाय नमः ओम् अन्तरादन्तराय नमः ॐ अतीतातीतभावाय नमः ॐ अज्ञानध्वान्तदीपाय नमः ॐ अनन्यभावसुलभाय नमः न्यभावय नमः ॐ अव्याजकरुणामूर्तये नमः ॐ अहेतुकदयाम्बुधये नमः ॐ अवस्थात्रयहीनाय नमः ॐ अवस्थात्रयसाक्षिणे नमः ॐ अस्मत्प्रत्ययार्थाय नमः ॐ अहमप्रकृतसाक्षिणे नमः